श्रीमद्भागवत् महापुराणं दशस्कन्ध अषड्विंशोऽध्यायः नन्दबाबासे गोपोकी श्रीकृष्णके प्रभावके विषय मे बाचीत् श्रीशुकुवाच एवं विधानि कर्माणि गोपाकृष्णस्य वीक्षते अतद्वीर्यविदः प्रोचु समभ्येत्य सुविस्मिताः बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै कथर्मर्हत्यसौ जन्म ग्राम्ये स्वात्मजुगुप्सितं यसप्ताहाय नो बालकरेणैकेन लीलयां कथं बिभ्रजगिरुवरं पुष्करं गजराडिव पूतनाया पूतनायामहोजस पीतस्तनसः प्राणै काले देव वयस्तनोः हिन्मतोधशयानस्य मास्य चरणावुदक अनौपदं विपर्यस्तं मृदात प्रवृताहतम् एकहायन आशिनो ह्रियमाणो विहायसा दैत्येन यस्तुणावर्त महान् कण्ठगृधातुरं कचिद्धैर्यङ्गवस्तैन्ये मात्रा बद्ध उलूखले गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातेत। वने सञ्चारयन्वस्सां स रामो अंतुकामं हन्तुकामम्बकं दोर्भ्यां मुखतोरीमटामपाटयत् वश्येषु वश्यरूपेण प्रविशन्तं जिघांसयां हत्वान् पातयत्तेन कपित्थानि चलीलया हद्वारा स भदयतेऽयं तद्बन्धुश्च तक्रेतालवनं छेमं क्षेमं परिपक्व फलान्वितम् प्रलम्बं घाते अमोचयत्प्रजपशुन् बलेन बलशालिना अमोचयद्रजपशुन् गोपाश्चारण्यवह्नितः आशीर्विशतं माहिन्द्रं दमित्वा विमदम्भदात् द्वास्य यमुनां चक्रेऽसौ निर्विशोदकां दुश्चतश्चानुरागोऽस्मिन् सर्वेषां नो ब्रजौ कषां नन्दते तने स्मासु तस्याप्यौत्पत्तिककथं क्व सप्तहाय नो बार क्व महाद्रिविधारणं ततो नो जायते शङ्का व्रजनाथ तवात्मजे नन्द उवाच श्रूयतां ने वचो गोपाव्येतु शङ्काचवूर्भके तेनं कुमारमुद्दिश्य गर्गोमे यद्वाचः वर्णाश्रय किलासन् गृह्णतोऽनुसंयुगं तनुः शुक्लो रक्तस्तथापीत इदानीं कृष्णतां गतः प्रागयं वासुदेवस्य क्वचिज्जात स्वात्मजः वासदेव इति श्रीमान अभिज्ञासम् प्रचक्षते बहूनि सन्ति नामानि च सुतस्यते गुणकर्माणि रूपाणि तान्यसंवेदनो जनाः एषव श्री आधास्यन् गोपगोकुलनन्दनः अनेन सर्वदुर्गाणि योऽयमज्जतरिष्यथ पुराणेन व्रजपते साधो दस्य पीडिताः नराजके राजके रक्षमाणान् दिव्योर्दंश्योन् समेधिताः य एतस्मिन् महाभागा प्रीतिं कुर्वन्ति मानवाः नार्योभि भवन्ति तान् विष्णुपक्षानि वासुराः तस्मानन्दकुमारोऽयं नारायणसमो गुणैः कृत्यानुभावेन तत्कर्मसू विस्मयः यद्यद्धा मां समादिस्य गर्गे स्वगृहं गते मन्ये नारायणास्यां सं कृष्णमक्लेष्टकारिणम् इति नन्दव च श्रुत्वा गर्गगीतं रजौकसः दृष्ट श्रुतानुभावास्ते कृष्णस्यामिततेजसः मुदितानन्दमानर्चु कृष्णं च गतविस्मयाः देवे वर्षते वर्षति यज्ञविप्लवरुषा भद्रा स्म परशानिलैः स्थीत्पालपशुस्त्री आत्मचरणं दृष्ट्वानुकम्प्यु स्मयन् उत्पाट्यैककरेण शैलमबलो लीलोच्छेलिध्रं ली यथा बिभ्रत गोष्ठमपान्महेन्द्रम् अदभीत प्रियान् इन्द्रो गवाभो देशे मद्भागवते महापुराणे पारं श्यां चैतायां दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः